अथ त्रयोदशोऽध्यायः वैशम्पायनुवाच विषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः चिन्तयन् राजसु येष्टिं न लेभे शर्म भारत राजर्षीणां च तं श्रुत्वा महिमानं महात्मनां यज्वानां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च हरिश्चन्द्रं च राजर्षिं रोचमानं यज्वानं यज्ञमाहर्तुं राजसूयमियेषसः युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः प्रत्यर्चितश्च तैः सर्वैरज्ञायैव मनोदधे स राजसूयम् राजेन्द्र कुरूणा मृषभस्तदा आहर्तुम् प्रवणम् चक्रे मनः सञ्चिन्त्य चासकृत् भूयश्चाद्भुतवीर्यौ धर्ममेवानुचिन्तयन् किम् हितम् सर्वलोकानाम् भवेदिति मनोदधे अनगृण्न प्रजा सर्वा सर्वधर्म भृतां वर अवशेषेण सर्व चक्रे युधिष्ठि